वैशम्पायनवाच तं कृष्णः प्रत्युवाचेदं बहुक्त्वा गुणविस्तरं त्वमेव राजशार्दूलसाम्राडर्हो महाक्रतुं सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते नियुङ्क्ष्वत्वं च मां सर्वं कर्तास्मिते वचः युधिष्ठिर उवाच सफलः कृष्णसङ्कल्पः सिद्धिश्च नियता मम यस्य मेत्तं यथेप्सितमुपस्थितः वैशम्पायनवाच अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह ईजितुं राजसूयेन साधनान्युपचक्रमे